तन्त्रीगीतसमाकीर्णं समतालमिताक्षरं दिव्यदुन्दुभिनिर्ह्नादं वादित्रशतसङ्कुलं स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा ततो विगाह्य हैडिम्बो बहु सददर्शमहात्मानं द्वाःस्थेन भरतर्षभा तं विभीषणमासीनं काञ्चने परमासने दिव्ये भास्करसङ्काशे मुक्तामणिविभूषिते दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभं विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् उपोपविष्टं सचिवैर्देवैरिवशतक्रतं यक्षैर्महारथैर्दिव्यैर्नारीभिः प्रियदर्शनैः गीर्भिर्मङ्गलयुक्ताभिः पूज्यमानं यथाविधि चामरे व्यजने चाग्रेः मदण्डे महाधने गृहीते वरनारिभ्यां धूयमाने च मूर्धनि अर्चिष्मन्तं श्रियाजुष्टं कुबेरवरुणोपमम् धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेश्वरम् राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा दृष्ट्वा घटोत्कचो राजन्वन्दे तं कृताञ्जलिः प्रह्वस्तो महावीर्यः शक्रं चित्ररथो यथा तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः पूजयित्वा यथा न्यायं सा त्वपूर्वं वचो ब्रवीत् कस्य वंशे तु सञ्जातः करमिच्छन्महीपतिः तस्यानुजां समस्तांश्च पुरं देशं तस्य वै त्वां च तत्सर्वं श्रोतुमिच्छामि तत्त्वतः विस्तरेण मम ब्रूहि सर्वानेतान् पृथक् पृथक् वैशम्पायनवाच एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना कृताञ्जलिरुवाचाथ सन्त्वयन्